श्रीहरिके नमः अत अष्टमोऽध्यायः श्रीशुक उवाच एकधातु महानद्यां कृताभिषेकनैयमिकावश्यघो ब्रह्माक्षरमभिकृणानो मुहोत्तरत्रयमुदकान्तमुपविवेश तत्र तदा राजन्हरिणी पिपाशयाम् जलाशयाभ्यासमेकैवो भज गाम तया पे पीयमानमुदके तावदेवा अभिदूरेण नधतो मृगभत्तेरुन्नातो लोकभयङ्कर उदपथे तमुपसृत्य सा सुतारामभिहरिभया निवेश व्यग्रहृतया पारिप्लवदृष्टिः अगधतृषाभया सहै सैवो चक्राम तत्या उत्पतन्त्या अन्तर्वन्त्या उरुभयावगलितो योनिर्गतो गर्भस्रोतसि निपात तत्प्रसवोत्सर्पण भयके धातुरा स्वगणेन वियोज्यमान कृष्णसारसती निपपादात च ममार तं त्वेन गुणकं कृपणं श्रोतसानोह्यमानम् अभिवीक्ष्य अपविद्धं बन्तुरिव अनुकम्पया राजर्षि भरत आधाय मृतमादर मिदि आश्रमबमनय तस्य कबायेन कुणक उच्चैरे तस्मिन् कृतनिजभिमानस्य अहरहस्तत्पोक्षण पालनलालन प्रीणन अनुध्यानेन, आत्मनियमा यमा पुरुष परिश्चर्यादय एकैकशकतिपयेन अहर्गणेन विनुज्जमान किल सर्वोधवसन् अहो बधायं हरिणगुणकं कृपण ईश्वररथचरणं परिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितशरणं च मोबसातितो मामेव मातापितरौ भ्रातृज्ञातिन्यौतिकांश्चैवोपेयाय नान्यं कञ्चन वेदमय्यतिविश्रब्दश्चात एवमया मत्परायणस्य भूषण पालनप्रीणनलालनम् अनुसूयुनानुष्ठेयम् शरण्योपेषा दोषविदुषा नूनं ह्य साधव उपशमशीलाकृपणसुहृद एवं विधार्ते स्वतार्थानपि गुरुतरानपेक्षन्ते इति कृतानुशङ्क आसन सयनाटनस्थानासनादिशो सख मृगजहुना स्नेहानुबद्ध हृदय आसीत् कुसकुसुमसमित्पलासफलमूलोध पला कानि आहरिष्यमाणो भृकशालावृतिकादिभ्यो भयम् आशंसमानो यथा सह हरिण कुणकेन वनं समाविशति पतिषु च मुक्तभावेन तत्र तत्र विषक्तमतिप्रणयवरहृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि च आधाय परमामवाप क्रियायां निर्वर्त्यमानायाम् अंतराले अभ्युत्तायोथाय यदैनम अभिचक्षित तर्हि वा प्रकृतिस्तेन मनसा तस्मा आशिष आसास्ते स्वस्ते स्ताद्वत्सते सर्व इति अन्यथा वृषं बुद्विघ्नमना नष्टद्रविण इव कृपणः सकरुणम् अतितर्षेण हरिणकुणगविरह विक्वलहृदय सन्तापस्थमेव अनुशोषन् किल इति कोवाच अत स वै कृपणन बालको मृतह रिणीसुतो म्य शिरात मथे अक्रुद आत्मप्रत्येन से कृत विस्रंभ आत्मन अपि क्षेमेणास्मिन् आश्रमोपवने सुष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि अपि च न मृगशालावृकोऽन्यतमो वा नैकचर एकचरो भा भक्षयति निम्लोचति ह भगवान् सकलजगत् मात्याभि मम न मृगबधून्यास आगच्छति अभिस्वित्तग्रुतसुकृतमागत्य सुखयिष्यति हरिण राजकुमारो विवितरुचिरदर्शनीय निजं मृगधारगविनोदये असन्तोषं स्वानामपनुधन् मा क्ष्वेलिकाया मामृषां समाधिना आमिलितदृशं प्रेमसम्प्रम्भेण चकितचकित आगत्य पृषधपरुषविषाणाघ्रेण लुठति आसादितः विषि बर्हिषि दूषिते मयो बलब्धो भीतभीतसभत्युपरतरास ऋषिकुमारवत्तवहित करणकलाप आस्ते किं आचरितं तपस्तपस्विन्यां नया यदियमवनिः सविनय कृष्णसारथनय तनुरतसुभग शिवतमाकरकुरपदपङ्क्तिभिर्द्रविण विधूरातुरस्य कृपणस्य मम द्रविण च सर्वतः कृतकौतुकं द्विजानां स्वर्गाभवर्ग कामानां देवय जनं करोति अपि स्वित्तसौ भगवानुढुपतिरेनं मृगभतिभयान् मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टम् अनुकम्पया कृपणजनवत्सलः परिपाति किं वा आत्मज विश्लेषज्वरधव दहनसि गापि उपतप्यमान हृदयस्तलनळिनीकम् सान्तानुरागगुणितनिजवदन सलिलामृतमयघभस्तिभिस्वधयतीति च एवमगढमन मनोरथा गुलहृदयो मृगधारकभासेन स्वारब्धकर्मणा योकारम्भणतो विभ्रंसितः स भगवधाराधनलक्षणाच्च कतमितरथा जात्यन्तरयेन गुणक आसङ्गः हृदयाभिजातस्य तस्यैवम् अन्तराय विगतयोगारम्भणस्य राजर्षेर्भर तस्य तापन्मृगार्भगभूषण पालनप्रीणनलालननुषङ्गेण अभिगणयत आत्मानम् अहिरिवाकुबिलं धुरधिक्रमकालकरालरभस तदानीमपि पार्श्ववर्तिनम् आत्मजमिव अनुशोचन्तम् अभिवीक्षमाणो मृगयेवापि वापि निवेशितमनाविसृजलोकमिमं सखं मृगेण कलेवरं मृतमनुना मृतजन्मानुस्मृति इतरवन्मृगशरीरमवाभ तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेन अनुस्मृत्य भृशमनुतप्यमान आह अहो कष्टं भ्रष्टोकम् आत्मवतामनुपदात्यत्वमुक्ता समस्तसंगस्य विविक्तपुण्यारण्य शरणस्य आत्मवद आत्मनि सर्वेषामात्मनां भगवति वासुदेवे तदनुश्रवणमनन सङ्कीर्तनाराधननुस्मरणाभियोगेन अशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्नेन मनस्तत्त्वं पुनर्महाभूतश्यारन्मृगसुतमनोपरिशुश्राव इत्येवं निगूटनिर्वेथो विसृज्य मृगी मातरं पुनर्भगवत्क्षेत्रमुपसमशील मुनिगणदयितं शालघ्रामं पुलस्त्यपुलःश्रमं कालं जरात् प्रत्याजगाम तस्मिन्नपि कालं प्रदीक्षमाण सङ्घाच भृषम् उद्विघ्न आत्मसहचरः शुष्कपर्णदृणविरुधा वर्तमानो मृगत्वनिमित्तावसानमेव गणयन्द्रिकशरीरं तीर्थोदगक्लिन्नम् उत्ससर्ज इति श्रीमद्भगवते महापुराणे पञ्चमस्कन्ते भरतचरिते अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज के जय